गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टि सेवन् क उवाच सतज्ञात्वाश्चर्यं चकार निचचेदसि ततो विनायक्रोधा सिंहारूढो रणोत्सुकः स्वगर्जितेन च तदा गर्जयन् गगनं दिशः कम्बयन् सर्वलोकानां मनांसि पर्वतानपि ययौ वेगेन महदा देवान्धकसमीपदः प्रश्यतमुवाचाद दैत्यो देवान्धकस्तदा दैत्य उवाच कथं यादशुष्कतालोर्नवनीतादनक्षमः युद्धाय बालनस्तेयं गच्छ माधुस्तनं पिब अदित्यां कश्यपा जातः कथं यदो देवान्तगेनाद्य योद्धुमिच्छसि बालक कलो बिभेदि मां दृष्ट्वा वृथा त्वं मरुतुमिच्छसि अधिकोमलगात्रत्वाद्ग्रासमात्रं भविष्यसि क उवाच इति दैत्यवच श्रुत्वा क्रोधसंरक्तलोचनः विनाय कः प्रहस्याः वमन्वक्त्राद्दुधाशनं देव उवाच क्षीभोऽसि मद्यपानेन प्रायो वा सन्निपातवान् असम्बद्धं व्युक्तिहीनं वल्गस्य मूढभावदः वह्निर्दहति सर्वं हि लघोर्वायुसमीरिदः तद्वाख्यनुन्नस्त्वां हन्यां दैत्यादमनबुध्यसे इदानीं त्यज बुद्धिं तां नान्दको विद्यते मम त्वदर्थमवतीर्णोऽहं ब्रह्मभूतः सनातनः स्थाणोर्वरस्य गर्वेण कृतं ते सर्वपीडनम् अवधिं तस्य सम्प्राप्तं बुद्धिहीनेन बुद्ध्यस्य त्रैलोक्यपीडया पापं यज्जातं दुर्मधे अलङ्के कथनेनाद्य दर्शय स्वपौरुषं शक्तिपायोर्विनिर्गत्य कोत्वा वक्रं प्रदर्शयेद सः स्वप्रखरस्वाद्य यदि युद्धं त्वमिच्छसि श्वोभाविनं मृत्युमद्य मूढभावात् त्वमिच्छसि क एव मा भाष्यतं दैत्यं सज्यं चक्रे धनुप्रभुः नरान्तकगतिं तस्य दातु मे छ्वन्विनायकः टणत्कारेण धनुषश्चकम्बे भुवनत्रयम् आकर्णं ज्यामधाकृष्य बाणं दैत्ये ससर्जः दैत्येन शतधा भिन्नः स भुवि तदो दैत्यो धनुःसजं कृत्वा चिक्षेप सायकान् धनुषस्तस्य षद्वेन विनेदुपर्वतादिशः हुङ्कारेण च तान् बाणान् पादयामास विघ्नराड पुनर्विनायको बाणान् बहूंश्चिक्षेप दैत्यपे यह कूकुटम तर श कर्णकुंडले भूमौ न्यपादय दुभ्यां बिभेद चलायक तदो दैत्योषा चर्वंता चा नेत्रे च विस्फारिया शरान् बहूं चादयन् काष्टा काष्ठा विससर्जविनायकम् निरास्य अङ्केन बाणेन खमध्येतान्विनायकः स्वयं चक्रे मण्डपं सक्षणाद् बाणमयं विभुः अन्धकारे घोरतरे यु परस्परं शरवृष्ट्या बाणवृष्टिं निजघ्नदूदृशान्वितौ शतशस्तौ निराकृत्य बाणवृष्टि उभावपि ततो दैत्यो महामन्त्रं जब्त्वाष्टशतसङ्ख्यया मन्त्रया मासदेनाशु वारणास्त्रेण सायकं तत्याजाधप्रादुरासन्वारणणाकोडिशस्ततः चतुर्दन्ता गिरिनिभा मेरुमन्दरचूर्णिनः येषां मदवहानध्यप्रादुरासन् समन्तदः येषां बृंहितमात्रेण नादिदम्भुवनत्रयम् यथा यथा धनानां वर्षासु जिते न महामुने नाशया मा सुरनिशं देवसैन्यानि ते दे गजाः तावदां पृष्ठलग्नास्ते गजाया दिदिशोदश पादाघातैश्च हस्तैश्च दन्दाग्रा वीकारतिनः सेनाह्यकथनं दृष्ट्वा सिंहास्त्रं प्राक्षिपद्विभुः तद सिंहाप्रादुरास्सन् शदशोध तेषां गर्जितशब्देन गजा निपतिता भुवि सिंहाविदारयामासो गजगण्ठस्थलानि ते सिंहनादैर्बृंहितैश्च दैत्यशब्दैरनेकशः त्रैलोक्यं कम्पिदमभूदेवा सर्वे विसिस्मिरे उड्डीयोड्डीय सिंहास्ते गजकुम्भेषु पेतिरे एवं ते निहदाः सर्वे करेण सिंहसञ्जयैः विरेज्युरिन्द्रनिहदा वज्रणेव वा महीधरः तदसिंहायुर्दैत्यान् भक्षयन्तो दिशो निखते सर्वसैन्ये तु चिदामापसुरान्तकः अयं बालोऽपि बलवान् दृश्यदे कश्यपात्मजः इदानीं दर्शयिष्येस्य यमस्य सदनं ध्रुवम् एवमुक्त्वा पुनर्बाणं मन्त्रयामास दैत्यराट योजयामास धनुषि शार्दूलप्रसवं तदा आकर्णधनुराकृष्यमुमोच देववाहिनीं बाणः स च ययौ शीघ्रं नादयन् गगनं दिशः यत्पुङ्खवायुना संचयाः भेदुर्वृक्षसञ्चयाः प्रादुरास्सन्ननेकाश्च तदः संचयाः सिंहास्ते भक्षयामासु सिंहास्तेऽन्तर्हितास्ततः श्री गणेशपुराणे युद्धम नाम सप्त सप्तम ओम।